ब्रह्माण्डपुराणं मध्यभागम् अध्यायं फिफ्टि सेवेन् वरुणागमनं जैमिनिरुवाच तदशुष्कसुमित्राद्यामुनयशंसिदव्रताः ययोर्दिदृक्षवोरामं महेन्द्रमचलं प्रति अतीत्य सुबहून्देशान्वनानि सरितस्तथा आसेदुरचलश्रेष्ठं क्रमेण मुनिपुङ्गवाहा तमारुह्य शनैस्तस्य ख्यातमाश्रममण्डलं प्रशान्तक्रूरसत्त्वाढ्यं शुभं तपोवनम् सर्वर्तुफलपुष्पाढ्यतरुखण्डमनोहरं स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुदं तं तदाश्रममासाद्य ब्रह्मकोषेणनादितं विविशुर्दृष्टमनसो यथा वृद्धपुरःसरम् ब्रह्मासने सुखासीनं मृदुकृष्णाजिनोत्तरे शिष्यैः परिवृतं शान्तं ददृशुस्ते तपोधनाः कालाग्निमिव लोकां स्त्रीन् दग्ध्वा पूर्वं निजेच्छया तद्दोषशान्त्यै तपस्वि प्रवृत्तमिव देहिनम् ते समेत्य भृगुश्रेष्ठं विनयाचारशालिनः ववन्दिरे महामौनं भक्तिप्रणदकन्धराः तदस्थानागतान् दृष्ट्वा मुनीन् भृगुकुलोद्वहः अर्क पाद्यादिभिः सम्यक् पूजयामास सादरम् तानासीनान् कृतातिथ्यान् ऋषीन्देशान्तरागतान् उवाच भृगुशार्धूलस्मितपूर्वमितं वचः स्वागतं वो महाभागायूयं सर्वे समागताः करणीयं किमस्माभिर् वदध्वमविचारितं ततस्ते मुनयोरामं प्रणम्येदमधा ब्रुवन् अवेह्यस्मान्मुनिश्रेष्ठ गोकर्णनिलयान्मुनीन् खनद्भिस्सागरैर्भूमिं कस्मिंश्चित् कारणान्तरे सतीर्थम् तन्महाक्षेत्रं पदिदं सागराम्भसि उत्सारितार्मवजलं क्षेत्रं तत्सर्वपावनं उपलब्धुमभीप्समो भवतस्तु न संशयः विष्णो रंशेन भवान् भृगुकुले तस्मात् तस्मात्कर्तुमशक्यं ते त्रैलोक्येऽपि न किञ्चन वाञ्छितार्थप्रदो लोके त्वमेवेत्यनुशुश्रुम वयं त्वामागदा सर्वे रामैतदभियाचितुं सतत्त्वमात्मप्रभावेण क्षेत्रप्रवरमद्यतद् धातुमर्हसि विप्रेन्द्र समुत्सार्यार्मवोदकम् राम उवाच एतत्सर्वमशेषेण विदिदं मे तपोधनाः करणीयं च भकृत्यं मया नात्र विचारणा किन्तु युष्मदभिप्रेदं कर्मलोके सुदारुणं शस्त्रसङ्ग्रहणाच्छक्यं मयापि न तदन्यथा दत्त सर्वाभयोहं वै न्यस्तशस्त्रशमान्वितः तपः समास्तितश्चर्तु प्रागेव पितृशासनात् न जातु शस्त्रग्रहणं करिष्यामीत्यहं पुरा प्रतिश्रुत्य सदा मध्ये तपः कर्तुमिह नखाः शस्त्रग्रहणसाध्यत्वाद्युष्मदीप्सितवस्तुनः किङ्कर्तव्यं मयात्रेदि मम डोलायते मनः शुष्क उवाच सदा संरक्षणार्थाय शस्त्रसङ्ग्रहणं तु यत् तन्नच्यावयदे सत्यद्यथोक्तं ब्रह्मणा पुरा तस्मादस्मद्धितार्थाय भवदा ग्राह्यमायुधं धर्म एवमहांस्तेन चरितस्ते भविष्यति जैमिनिरुवाच एवं सम्प्रार्थ्यमानस्तु मुनिभिर्भृगुपुङ्कवः तमनुद्रु ्य मेधावी धर्ममुद्दिश्य केवलं सह मुनिश्रेष्ठो दिश्यं दक्षिणपश्चिमां समुद्दिश्य च चौराजं द्रष्टुकामः सरित्पदिं ससह्यमचलश्रेष्ठमवतीर्य भृगुद्वह तत्परम् सरितां पत्युस्थिरं प्राप महामनाः सददर्शमहाभागः परिधो मारुदाकुलं आकरं सर्वरत्नानां पूर्यमाणमनारतम् अपरिज्ञेयगाम्भीर्यम् महातामिव दुष्पारपारं सर्वस्य विविधग्रहसंहतिम् अप्रधृष्यतमं लोके धाधारमिव केवलम् आत्मानमिव चात्मत्वे न्यकृदाखिलमुद्धतम् आश्रयं सर्वसत्वानामापगानां च पार्थिवः संकाद अत्यर्थचपलोत्तुङ्गतरङ्गशतमालिनम् उपान्तोपलसङ्कादकुहरान्तरसंश्रयाद विशीर्यमाणलहरी शदफेनौकशोभितम् गम्भीरकोशं जलधिं पश्यन्मुनिगणैः सह संसेव्यमानस्तरलैर्लहरी कणशीतलैः मुहूर्तमिव राजेन्द्रतीरे नदनदीपदेहे, विशश्रमे महाभाकुर्द्रष्टुकामः ततो रामसमुद्धाय दक्षिणाभिमुखस्थितः मेकगम्भीरया वाचा वरुणं वाक्यमब्रवीद अहं मुनिगणैः सार्धमागतस्त्वदिदृक्षया तस्मात्स्वरूपधृङ्मह्यं प्रचेदो देहिदर्शनम् इति श्रुत्वापि तद्वाक्यं वरुणो या नचचाल न चालनिजस्थानानृपधिरतरस्त्वयम् पुनः पुनश्च रामेण समाहूतोऽपि तोयराट् न दर्शनं तस्मै प्रतिवाच्यं च नाभ्यधाद अलङ्कनीयं तद्वाक्यं त्वरुणेनावधीरितम् अत्यन्तमिति कार्यार्थी विदुषा समुपेक्षितं तदः प्रचेतसा चुकोप मन्यमानो वधीरिदं चुकोपतमभिप्रेक्ष्य रामशस्त्रभृताम्बरः सङ्क्षुब्धसागराकार सदतास्वबलाश्रयाद निस्तोयमर्णवं कर्तुमियेषितो भृशं ततो जलमुपस्पृश्य समीपे विजयं धनुः ततः प्रणम्य मनसा सर्वं रामो महाद्धनुः गृहीत्वारोपयामासक्रोधसंरक्तलोचनः भिमृश्य धनुश्रेष्ठं सगुणं भृगुसत्तमः पश्यतां सर्वभूतानां ज्याघोषमकरोत्तदा ज्याघोषशुश्रुवे तस्य दिवि स्पृगतिनिष्ठुरः चचालनिखिलायेन सप्तद्वीपार्मवामही तदशरभसं रामश्चापे कालानलोपमं। सुवर्मपुङ्खं विशिखं सं दधे शरसत्तमं तस्मिन्नस्त्रं महाघोरं भार्गवं वह्निदैवतं युयोजभृगुशार्दूलसमन्दाभ्यासमोक्षणम् ततश्चचालवसुधा सशैलवनकानना प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः सन्धितास्त्रं भृगुश्रेष्ठं क्रोधसंरक्तलोचनं दृष्ट्वा सम्भ्रान्तमनसो बभूवु सचराचराः सदिग्धाः भ्रपटलैरभवन् संवृदादिशः बभुश्च परुषावादा रजो व्याप्ता महारवाः मन्दरश्मिरशीदांशुरभूत संरक्तमण्डलः सोल्कापादा शनिर्वृष्टिर्बभूव रुधिरोदका किमे ददिति सम्भ्रान्ता धूमोद्गारादिभीषणम् अधिरोपितदिव्यास्त्रं प्रचकर्ष महाशरं धनुर्विकर्षमाणं तं स्फुरज्वालाग्रसायकम् ददृशोर्मुनयोरामं कल्पान्तानलसन्निभम् आकर्णाकृष्टकोदण्डमण्डलाभ्यं तरस्थितं तस्य प्रतिभयाकारं दुष्प्रापमभवद्वपुः विकृष्टधनुषस्तस्य रूपमुग्रं रवेरिव कल्पान्तेभ्युदितस्येव मण्डलं परिवेषितं कल्पान्ताग्नसमज्ज्वालाभीषणं स्फुरदो वपुः तस्या लक्ष्यदचक्रम्य हरेरिवचमण्डलं स्फुरक्रोधा नलज्ज्वाला परी तस्याधिरौद्रता अवाप विष्णोः स तदा नरसिंहाकृतेरिव वपुर्विकृष्टचापस्य भ्रुकुडीकुडिलाननं रामस्याभूद्भवस्येव दिधक्षोऽस्त्रिपुरं पुरा जाज्वल्यमानवपुषं तं दृष्ट्वा सहसाभयाद प्रसीद जयरामेदि तुष्टुवुर्मुनयोखिलः ततोऽस्त्राग्निस्फुरद्धूमपटलैः शकलीकृतं बभूवच्छन्नमम्भोधेरन्ध्रः पुरमशैषतः ज्वलदस्त्रानलज्वालापरितापपराहतः अत्यरिच्यदसम्भ्रान्तसलिलौख उदन्वतः तिमिगिलतिमिग्राहनक्रमस्याहि कच्छपाः प्रजग्मुः परमार्तिं प्राणिनः सलिलेशयाः उत्पतन्निपतत्ताम्यन्नानासत् ोद्धतोर्मिभिः प्रक्षोभं भृशमम्भोदिस्सहसा समुपागमदत्रासरासं च विपुलमम्भसा प्लवदा सह उद्वेलतामितस्तप्ता सलिलान्तरचारिणः ततस्तस्माच्चराज्वालाः स्फूत्कृताशेष भीषणाः निरूपितमिव व्यक्तं निश्चेरुः सर्वतो दिशं ततः प्रचण्डपवनैः सर्वतः परिवर्तितम् अग्निज्वालामयं रक्तविधानाभमलक्ष्यत प्रलयाब्धेरिवात्यर्थमस्त्राग्निव्याकुलाम्भसः समुद्रिक्ततया तस्य तरङ्गास्तीरमभ्ययुः अस्त्राग्निविद्धाकुलितजलघोषेण भूयसा कगुभो बधरीकुर्वन्नलक्ष्यतपयोनिधिः परितोऽस्त्रा नलज्ज्वाला परिवीतजलाविलः जगामपरमार्तिं सह्यसद्यस्तदाश्रयः आकर्ण्याकृष्टकोदण्डं दृष्ट्वा रामं पयोनिधि विषादमगमत्तीव्रं यमं दृष्टुवेव पादकी भयकम्पितसर्वाङ्गस्तदो नदनदीपतिः विहाय सहजं धैर्यं भीरुत्वं समुपागमत तदस्वरूपमास्थाय सर्वाभरणभूषितः उत्तीर्यमाणस्वजलं वरुणः प्रत्यदृश्यत ताजलि साहस्त प्रचेता भागवान्दीघ्रय का भीतवद अभ्येकृष्टधनुष सत्य अब्रवीच्य भृशम्भीदसम्भ्रमाकुलिताक्षरं रक्ष मां भृगुशार्दूलकृपया शरणागतम् अपराधमिमं राम मया कृतमजानता स्थितोऽस्मि तव निर्देशे शाधि किं करवाणि वै यी ब्रह्मांडे महापुराणे मध्यम भगे तृतीय उपोद भागव प्रति वरुणागमन सप्तमोध्याय ओ